भक्ष्यमाल्यापणानाञ्च ददृशुश्रियमुत्तमाम् स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनीम् तां तु दृष्ट्वा समृद्धिम् ते वीथ्याम् तस्याम् नरोत्तमाः राजमार्गेण गच्छन्तः कृष्णभीमधनञ्जयाः बलाद् माल्यानी मालाकारान् महाबलाः विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः निवेशनमधा जग्मुर्जरासन्धस्य धीमतः गोवासमिव वीक्षन्तः सिंहाहैमवता यथा शालस्तम्भनिभास्तेषाम् चन्दना गुरुरूषिताः अशोभन्तमहाराज बाहवो युद्धशालिनाम् ृष्ट्वा द्विरदप्रख्यान् शालस्कन्धानिवोद्गतान् व्यूढोरस्कान्मागधानाम् विस्मयः समपद्यत